श्रीहरये नमः अत अष्टाविंशोऽध्यायः श्रीशुक उवाचा एकादश्याम् निराकार समप्यर्च्य जनार्दनं स्नातुं नन्दस्तु काळिन्द्यां द्वादश्यां जलमाविशत् तं गृहीत्वा नयत् भृत्यो वरुणस्यासुरोऽन्धिकम् अभिज्ञाय आसुरीं वेलां प्रविष्टं बुधकं निषेन् शुक्रुसुस्तम् अपश्यन्तः कृष्ण रामेति गोपकाः भगवान्स्तदुभ्रुत्यपितरं वरुणाहृतम् तदंतिक गो राजस्वा अभयधो विभु प्राप्त वीक्षरिषिकेश लोकपल सर्य महत् पूजय्वा कदर्शन महोत्सव वरुण उवाचा अध्ये देखो, अध्ये वार्तो अदयृत देको अद्वागत प्रभुपादभाजो अवापू पधन नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने न यत्र श्रूयते मायालोकसृष्टिविकल्पना अजानता मामकेन मूटेनाकार्यवेदिना आनीतोऽयं तव पिता तद्भवान् शन्तुमर्हति ममापि अनुग्रहं कृष्णकर्तुमर्हसि अशेषदृक् गोविन्दनीयतामेष पिता ते पितृवत्सला श्रीशुक उवाच एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः आधायागात् स्वपितरं बन्धूनां चाबहन्मुदं दृष्ट्वा लोकपालमहोदयम् कृष्णे च सन्नतिं तेषां यादिभ्यो विस्मितो ब्रवीत् ते, ब्रवीत। ते त्वाश्चुक्य राजन् मत्वा गोपास्तमीश्वरम् अपि न स्वगतिं सूक्ष्माम् इति स्वानं स भगवान् विज्ञाया किला धृक् स्वयं जनो वैलोकये तस्मिन् अविद्या कामकर्मभिः उच्चावचासु गतिशु नवेतस्वां गतिं इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः दर्शयामासलोकं स्वं गोपानां तमसः परं सत्यं ज्ञानमनन्तं यत् ब्रह्मज्योतिःसनातनं यत्किपश्यन्ति मुनयो गुणापाये समाहिताः ते तु ब्रह्म कृतं नीतामग्ना कृष्णेन चोद्धृदाः दतृषुर्ब्रह्मणो लोकं यत्रा क्रूरोऽध्यगात्पुरा नन्दादयस्तुतं दृष्ट्वा परमानन्दनिर्वृताः कृष्णं तत्र छन्दोऽपि स्तूयमानं सुविस्मिताः इति श्रीमद्भागवते महापुराणे दशमस्तन्ते पूर्वार्धे अष्टाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमघराजकी जय